धनपतेर्यक्ष गुह्यकाराक्षसास्तथा गन्धर्वाप्सरसश्च वृषध्वजः पितामहसभायां तु कथितास्ते महर्षयः सर्वे देवनिकायाश्च सर्वशास्त्राणि चैव शक्रस्य तु सभायां तु देवास्सङ्कीर्तिता उद्देशतश्च गन्धर्वा विविधश्च महर्षयः एक एव तु राजर्षिर्हरिश्चन्द्रो महामुने कथितस्ते सभायां वै देवेन्द्रस्य महात्मनः किं कर्म तेनाचरितं तपो वा नियतव्रता येनासौ सह पितृलोकगतश्चैव त्वया विप्रपिता मम दृष्टः पाण्डुर्महाभागः कथं वापि समागतः किमुक्तवांश्च भगवंस्तन्ममाचक्ष्वसुव्रता वरं कौतूहलं हि मे पृच्छसि राजेन्द्र हरिश्चन्द्रं प्रति तत्तेऽहं सम्प्रवक्ष्यामि माहात्म्यं तस्य धीमतः इक्ष्वाकूणां कुले जातस्त्रिशङ्कुर्नाम पार्थिवः अयोध्याधिपतिर्वीरो विश्वामित्रेण संस्थितः तस्य सत्यवती नाम पत्नीकेकयवंशजा तस्यां गर्भः